श्रीहरये नमः अथ त्रिपञ्चाशोद्धमोऽध्यायः श्रीशुक उवाच वैदर्भ्या स तु सन्देशं निशंयदुनन्दनः प्रगृह्य पाणिना पाणिं प्रकसङ्गिदमब्रवीत् श्रीभगवानुवाच तथाहमपि तच्चित्तो निद्रां च न लभे निशी वेदाघं वेदाहं रुक्मिणा द्वेषात्ममोद्वाहो निवारितः ता मानयिष्य उन्मत्य राजन्यापसदान्मृते मत्परामनवध्याङ्गिन्येदसोऽग्निकामिव श्रीशुक उवाच उद्वाहर्षं च विज्ञाय रुक्मिण्या मधुसूधनः रथस्संयुज्यता मासु धारुकेत्याहसारथिं स च स्वै सैव्यसुग्रीवमेघपुष्पबलाहकैः युक्तम् रथमुपानीयतस्प्राञ्जलिरग्रतः आरुह्यशन्धनं शौरेर्द्विजमारोप्य धूर्णकैः आनर्तातेकरात्रेण विदर्भावगमहयैः राजासकुण्ठिनपतिः पुत्रस्नेहवसङ्गतः शिशुपालाय स्वां कन्यां दास्यन् कर्माणि अकारयन् पुरं संमृष्ट संसिद्धमार्गरत्या चतुष्पथं छिद्रध्वजपताकाभिस्तोरणैः समलङ्कृतं षड् गन्तमाल्याभरणैर्विरजोम्भरभूषितैः स्त्रीपुरुषैः श्रीमद्गृहैः अगुरुधूपितैः पितॄन् समाप्यश्च विप्रांश्च विधिवन्नृप भोजयित्वा यता न्यायम् सुस्नातां सुधतीं कन्यां कृतकौतुकमङ्गलान् का अगदां शुकयुग्मेन भूषितां भूषणोत्तमैः चकृषामरुग्यजुर्मन्त्रैर्वध्वा रक्षान् द्विजोत्तमागान् पुरोहितोथर्वविद्वै जुहावग्रगशान्तये हिरण्यरूप्य वासां शीतिलांश्च गु गुडमिश्रितान् प्रादाध्येनोश्च विप्रेभ्यो राजा विधिविदां वरः एवं राजा दमघोषः वै कारयामासमन्त्रज्ञै सर्वम् अभ्युतयोचितं मदस्युद्भिर्घजानीकैष्यन्ध्यनैर्घेम मालिभिः पत्यश्वशङ्कुलैशङ्ग्यपरीतकुण्ठिनं ययो तं वै विदर्भातिपतिः समप्येत्याभिपूज्य च तत्र साल्ब्वो जरासन्धोतदन्तवक्त्रोऽभिधूरतः आजग्मुश्चैत्यपक्षीया पौण्ड्रकाद्या सकस्रसः कृष्णरामद्भिशो यत्ता कन्यां चैध्याय चादितुं यत्याकत्य हरेत्कृष्णो रामाद्यैर्यधुबर्व्रतः योत्स्याम संहतास्तेन इति निश्चितमानसाः आ जग्मुर्भोभुजः सर्वे समग्रबलवाहनाः श्रुत्वैतद्भगवान् रामो विपक्षीय नृपोद्यमं कृष्णं चैकं गतं हर्तुं कन्यां कलहसङ्कितः बलेन महता प्रा भ्रातृस्नेहपरिप्लुतः त्वरितकुण्डिनं प्रागाद्गजाश्वरतभक्तिभिः भीष्मकन्यापरारोहाकाङ्क्षत्या गमनं हरेः प्रत्यापत्तिम् अपश्यन्ती द्विजस्याचिन्तयत्तथा अहोत्रियामान्तरितवोद्वाहो मेल्पराधसः नागश्चति अरविन्दाक्षो नागं वेद्मय सोऽपि नावर्ततेऽध्यापि मत्सन्देसहरो द्विजः अपि मय्य दृष्ट्वा किञ्जिजुगुप्सितं मत्पाणिग्रहेण नूनं नायातिः कृतोद्यमः दुर्भगाया ना देवी वा विमुखा गौरी रुद्राणि गिरिजासती एवं चिन्तयति बाला गोविन्दहृतमानसा न्यमीलयत कालज्ञानेत्रे चाश्रुकलाकुले एवं बद्ध्वा प्रतीक्षन्त्या गोविन्दागमनं नृप वामभूरुर्भुजो नेत्रम् अस्फुरन् प्रियभाषिणः अथ कृष्णविनिर्दिष्टः स ेव द्विजसत्तमः सातं प्रकृष्टवदनम् अव्यग्रात्मगतिं सती आलक्षलक्षणापिज्ञा समभृच्छत् शुचिस्मिता तस्या प्राप्तं सशंसयधुनं धनम् उक्तं च सत्यवचनम् आत्मोपनयनं प्रति तमागतं समाज्ञाय वैधर्भीहृष्टमानसा न पश्यन्ति ब्राह्मणाय प्रियमन्यन्न नाम सा प्राप्तौ श्रुत्वा स्वदुहितौ उद्वाहप्रेक्षणोत्सुकौ अभ्ययात्तूर्यघोषेण रामकृष्णौ समर्हणैः मधुपर्गमुपानीयवासांसि विरजांसि सः उपायनानि अभीष्टानि विधिवत् समभोजय तयोर्निवेशनं श्रीमत् उपकल्प्य महामतिः ससैन्ययो सानुघयो आदित्यं विधथे यथा एवं राज्ञां समेतानां यथा वीर्यं यता यथा बलं यथा वित्तं सर्वैः कामै समर्हयत् कृष्णमागतमाकर्ण्य विदर्भपुरवासिनः आगत्य नेत्राञ्जलिभिः पन् मुखपङ्गजम् अस्यैव भार्या भवितुम् रुक्मिण्यर्हति न परम् असौ अपि अनवध्यात्मा भैष्म्या समुचितः किञ्चित् सुचरितं यन्नस्ते न तुष्टस्त्रिलोककृत् अनुघृघ्नातु गृघ्नातो वै दर्भ्य पाणिमश्युतः एवं प्रेमकला बद्धा वतन्ति पद्या विनिर्ययौ द्रष्टं भवान्याः पादपल्लवं सा चानुध्यायति सम्यक् मुकुन्दचरणाम्बुजं यत वाङ्मातृभिः सार्धं सन्नद्धै उद्यतायुधैः मृदङ्कशङ्कपणवास्तूर्यभेर्यश्च जग्निरे नानोपहार बलिभिर्वारमुख्यासखस्रसः षड्घन्तावस्त्राभरणे द्विचपत्न्यै स्वलङ्कृताः गायन्तश्च स्तुवन्तश्च गायका वाद्यवादकाः परिवार्यवतुं जग्मू सूतम् आगतवन्दिनः आसाद्य देवि सदनं धौतपादकराम्बुजा दा। उपस्पृश्य शुचिक्षान्ता प्रविवेश आसाद्य देवि पतनं धौतपातकराम्बुजा उपस्पृश्य शुची शान्ता प्रविवेश अम्बिकान्तिकं ताम्बै प्रभयसो भालां विधिज्ञा विप्रयोषितः भवानीं वन्दयाञ्छक्रुर्भवपत्नीं भवान् विताम् नमस्ते त्वाम्बिके भीष्णं स्वसन्तानयुतां शिवां भूयात्पतिर्मे भगवान् कृष्णस्तदनुमोदताम् अद्भिर्गन्ताक्षतैर्धूपैर्वासशृङ्माल्यभूषणैः नानोपहारबलिभिः प्रदीपाबलिभिः प्रथ विप्र स्त्रियः पतिमतिस्तथाथै समपूजयत् लवणा पूपथा भूलकण्ठसूत्रफलेक्षुभिः तस्यै स्त्रिश्रस्ताः से प्रदतु सेषां युयुजुराशिषः ताभ्यो देवै नमश्चक्रे सेषां च जगृहे वधूः मुनिव्रतमतत्यक्त्वा निश्चक्राम अम्बिका गृहात् प्रगृह्य पाणिनाभृत्यां तां देवमायामिव वीरमोहिनीं सुमध्यमां कुण्डलमण्डिताननां श्यामां नितम्भार्पितरत्नमेकलां व्यञ्जस्तनीं कुन्दलसङ्कितेक्षणां शुचिस्मितां बिम्बबलातरद्युती शोणायमानद्विजगुन्तकुड्मलाम् पदा चलन्तीं कलहंस गामिनीं सिञ्चत्कला नोपुरधामशोभि विलोक्यवीरामुः समागता यशस्विनस्तत्कृतहृच्छयार्जिताः यां वीक्षते नृपतयस्तधुतारः स व्रीढाबलोकहृतचेतस उज्झितास्त्राः पेतुक्षितौ गजरता स्वगता विमूढां यात्राश्चलेन हरयेऽर्पयतीं स्वशोभां सैवं शनैश्चलयति चलपद्मकोश प्राप्तिं तदा भगवत प्रसमीक्षमाणा उत्सार्य वामकरजै अलकानभाङ्गे प्राप्तान् ह्रियै क्षतनपान्धतृषेच्छुतं सा तां राजगन्यां रतमारुरुक्षतीं जगारकृष्णो द्विशतां समीक्षतां रथं समारोह्य सुपर्णलक्षणं राजन्यचक्रं परिभूय माधवः ततोयवै ततोययो रामपुरोगमयि सनैः शृगालमध्यादिवभागहृत् हरिः तं मानिनः स्वाभिभवं यशक्षयं परे जरासन्दवसानले हिरे अहोदिगस्मान् इति श्रीमद्भागवते महापुराणे दशमस्कन्दे उत्तरार्धे रुक्मिणीकर्णं नाम त्रिपञ्चाशद्धमोऽध्यायः श्रीहरगे नमः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराजकी जय